श्रीमद्भागवत् महापुराणं पञ्चमस्कन्धः अथैकादशोऽध्यायः राजारघुगणको भरज्जीका उपदेश ब्राह्मण उवाच अकोविद कोविदवादवादान्वदस्यथो नातिविदाम्बरिष्ठ न ना सूर्यो हि व्यवहारमेनं तद्वावमरसेन सहामनन्ति तथैव राजानुरुगार्हमेधविता न विद्योर्विजृम्भितेषु न वेदवादेषु हि तत्त्ववादप्रायेण शुद्धोऽनु च कास्ति साधु न तस्य स्वयं स्यात् यावन्मनोरजसा पूरुषश्च सत्त्वेन वां तमसा वानुरुद्धं चेतोभिराकूतिभिरातनोति निरङ्कुशं कुशलं चेतरं वा तवासनात्मा विषयो परोक्तो गुणप्रवाहो विकृतषोडसात्मा दिभ्रद्पृथं नामभिरुपभेदम् अन्तर्बहिष्वं च पुरेस्तनोति दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलमाव्यनक्मि आलिङ्गमाया रचितान्तरात्मा स्वदेहिनं संस्कृतिचक्रकूटः तावालयं द्यां व्यवहार सदाभि क्षेत्रसाक्षो भवति स्थूलसूक्ष्मः तस्मान्मनोलिङ्गमदो वदन्ति गुणागुणद्वस्य परावरस्य गुणानुरक्तं द्यसनायजन्तो क्षेमाय नैर्गुण्यमथो मनः स्यात् यथा प्रदित्वो घृतवर्तिमस्मन्सिकासं सतो मा भजति ह्यन्यदासम् पदं तथा गुणकर्मानुबद्धं द्यर्मनः श्रयतेऽन्यत्र तत्त्वम् एकादशा सन्मनसो हि वृद्धय आकूतय पञ्चदयोऽभिमान मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादशवीरभूमिः गन्धाकृतिस्पर्शरं संस्रवांसि विसर्गरद्यर्तविजल्पशिल्पा तेकादशं स्वीकरणं नमेति सय्यामहं द्वादशमेक कर्मकाले, द्रव्यस्वभावाशयकर्मकालै एकादशामि मनसो विकाराः सहस्रता शतश कोटिशश्च क्षेत्रज्ञतो न मिथो न सतः स्यो विभूते जीवस्य माया रचितस्य नित्याः आविर्हिता पापि तिरोहितास्य शुद्धो विचष्टे क्षेत्रज्ञ आत्मा पुरुष पुराण साक्षात् स्वयं ज्योतिरज परेश नारायणो भगवान् वासुदेव समाजयात्मन्यवधीयमान यथा निलसावरजङ्गमानाम् आत्मस्वरूपेण निवेष्टयिषेत एवं परो भगवान् वासुदेव क्षेत्रज्ञ आत्मेदमनुप्रविष्ट न यावदेतां तन् बृन्नरेन्द्रविधूय मायां विमुक्तसंगो विमुक्तसङ्गोदितषट्सपत्नो वेदात्मतत्त्वं ध्रमती ह्यतावन् न संसारतापवपनं आत्मलिङ्गं संसारतापावपनं जनस्य यच्छोकमोहां नैरागलोभवैरानुबन्धं ममतां विधत्ते भ्रातृभ्यमेनं तददभ्रवीर्यवमुपेक्षयाध्येधिप्रमत्तः गुरोर्हरिश्चरणोपासनास्त्रो जहि व्यलीकं त्रयमात्ममोषं ते श्रीमद्भागते महाप्राणे प्रञ्चां रयितायां पञ्चमस्कन्धे ब्राह्मणं रघुगुणसंवादे एकादशोऽध्यायः